अथ पंचंश सर्ग उ रात्रिशेषं तो शोणाकूल महर्षि निशायां सुप्रभाताश्वाषत सुप्रभाता सन्ध्या प्रवर्त उत्ति भद्रं ते गमनारोचय तछ्रुवा वचनम तस्तूर्वाणी क्रिय गमनम् रोचयामास वाक्यम् चेदमुवाचः अयम् षोडशु भजलो गाधः पुरि न मण्डितः कदरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् एष पन्थामयोद्दिष्टो येन यान्ति महर्षयः एवमुक्ता महर्षयो विश्वामित्रेण धीमता पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ते गत्वा दूरमध्वानम् गतेऽर्धदिवसे तदा जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर्मुनिसेविता ताम् दृष्ट्वा पुण्यसलिलाम् हंससाहससेविता बभोवर्मुनयः सर्वे मुदिताः सह राघवाः तदा सर्वे चक्रुर्वासपरिग्रहम् ततः स्नात्वा यथा न्यायम् सन्तर्प्य पितृदेवताः हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतबद्धविः विविशुर्जाह्नवीतीरे शुभामुदितमानसाः विश्वामित्रम् महात्मानम् परिवार्य समन्ततः निष्ठिताश्च यथा न्यायम् राघवौ च यथार्हतः सम्प्रहृष्टमना रामो विश्वामित्रमथा ब्रवीत् भगवन् श्रोतुमिच्छामि गङ्गाम् त्रिपथगाम् नदीम् त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् चोदितो रामवाक्येन विश्वामित्रो महामुनिः वृद्धिम् जन्म च गङ्गाया वक्तुमेवोपचक्रमे शैलेन्द्रोहिमवान् राम धातूनामाकरो महान् तस्य कन्याद्वयम् रामरूपेणा प्रतिमम् भुवि माता या मे रुदुहिता राम तयोर्माता सुमध्यमा नाम्ना मेनामनोज्ञा वै पत्नी हिमवतः प्रिया तस्याम् गङ्गेयमभवज्येष्ठा हिमवतः उमा नाम द्वितीया भूत्कन्या तस्यैव राघवा अथ ज्येष्ठाम् सुराः सर्वे देवकार्यचिकीर्षया शैलेन्द्रम् वरयामासुर्गङ्गाम् त्रिपथगाम् नदीम् ददौ धर्मेण हिमवाम्स्तनयाम् लोकपावनी स्वच्छन्दपथगाम् गङ्गाम् त्रैलोक्यहितकाम्यया प्रतिगृह्य त्रिलोकार्थम् त्रिलोकहितकाङ्क्षिणः गङ्गामादायते गच्छन् कृतार्थेनान्तरात्मना या चान्याशैलदुहिता कन्यासी द्रघुनन्दना उग्रम् सुव्रतमास्थाय तपस्तेपे तपोधना उग्रेण तपसा युक्ताम् ददौ शैलवरः रुद्राया प्रतिरूपाय उमाम् लोकनमस्कृताम् एते ते शैलराजस्य सुते लोकनमस्कृते गङ्गा च सरिताम् श्रेष्ठा उमा देवी च राघवा एतत्ते सर्वमाख्यातम् यथा त्रिपथगामिनी खङ्गता प्रथमम् तापगतिम् गतिमताम् वरा सैषा सुर नदीरम् तदा सुरलोकं समारूढा विपापा जलवाहिनी इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशत् सर्गः